सहनावतु सहनौ भुनक्तु सह वीर्यङ्करवावहै तेजस्विनावधितमस्तु माविद्विषावहै ॐ शान्तिः शान्तिः शान्तिः ॐ अथ पुरुषोऽह वै नारायणो कामयत प्रजासृजेजेति नारायणात्प्राणो जायते मनः सर्वेन्द्रियाणि च खम्वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी नारायणाद्ब्रह्मा जायते नारायणा रुद्रो नारा जायते नारायणादिन्द्रो जायते प्रजा नारायणात्प्रजापतयः प्रजायन्ते नारायणाद्वादशादित्या रुद्रावसवः सर्वाणि च छन्दागुंसि नारायणादेव समुत्पद्यन्ते नारायणे प्रवर्तन्ते नारायणे प्रलीयन्ते ओ अथ नित्यो नारागणः ब्रह्मा नारागणः शिवश्च नारागणः शक्रश्च नारागणः द्यावापृथिव्यौ च नारागणः कालश्च नारागणः दिशश्च नारागणः ऊर्ध्वश्च नारागणः अधश्च नारागणः अन्तर्बहिश्च नारागणः नारागण एवेदगम् सर्वम् यद्भूत यच्च भव्यम् निष्को निरंजनो निर्कलो निराक्षातः शुद्ध दबो नारागण न द्वीय आस् कशि येद स विषुव विषुवती ओमितग्रेव्या हेरे नम है पश्चात् नारायणाजेत्युपरिष्टात् ओमित्येकाक्षरम् नम इति द्वे अक्षरे नारायणाजेति पञ्चक्षराणि एतद्वै नारायणस्याष्टाक्षरम् पदम् यो ह वै नारायणस्याष्टाक्षरम् पदमध्येति अनपब्रवः सर्वमायुरेति विन्दते प्राजापत्यगम् रागस्पोषङ्गौपत्यम् ततोऽमृतत्वमश्नुते ततोऽमृतत्वमश्नुत इति य एवम् वेद प्रत्यगानन्दम् ब्रह्मपुरुषम् प्रणवस्वरूपम् अकार उकारमकार इति ताने कथा समभरत्तदेतदो यमुक्त्वा मुच्यते योगी जन्मसंसारबन्धनात् ओम् नमो नारायणायेति मन्त्रोपासकः वैकुण्ठभुवनलोकम् गमिष्यति तदिदम् परम् पुण्डरीकम् विज्ञानघनम् तस्मात्तदिदावन्मात्रम् ब्रह्मण्यो देवकी पुत्रो ब्रह्मण्यो मधुसूदनो सर्वभूतस्थमेकन्नारायणम् कारणरूपमकारपरब्रह्मो एतदथर्वशिरो योऽधीते प्रातरधीजानो रात्रिकृतम् पापन्ना यजति सा जपधीजानो दिवसकृतम् पापन्ना यजति माध्यन्दिनमादित्याभिमुखोऽधीजानः पञ्चपातकोपपातकात्प्रमुच्यते सर्ववेदपारागणपुण्यल्लभते ारायणसायुज्यमवाप्नोति नारायणसायुज्यमवाप्नोति य एवम् वेद इत्युपनिषत् ॐ सहना भवतु भुनक्तु सह करवावहै तेजस्विनावधितमस्तु मा विद्विषावहैः ओम् शान्तिः शान्तिः शान्तिः